ब्रह्माण्डपुराणं मध्यभागम् अध्यायं फ़ोर् जयाभिव्याहारः सूत उवाच ब्रह्मणा वैमुखात्सृष्टा जया, वै जया देवाः प्रजेप्सया सर्वे मन्द्रशरीरास्ते स्मृता मन्वन्तरेष्विह दर्शश्च पौर्णमासश्च बृहत्सामरथन्तरं चितिश्च शुचितिश्चैव ह्याकुधिकुधिरेव च विज्ञातश्चैव विज्ञादामना यज्ञश्च द्वादशः दाराग्निहोत्रसम्बन्धं विधत्य यजदेति ये मुक्त ब्रह्म त्रैवादा प्रभु ततस्ते न्यन तद्वाक्यं परिन सं कर्मा वासना कर्म जा वै यमे वनष दोषम दृष्ट्वा दुकसु क्षयादि शययुक्तं च ते दृष्ट्वा कर्मणां फलं जुगुप्सन्तःप्रसूतिं च निःसत्त्वा निर्ममाभवन् अजन्मकाङ्क्षमाणास्ते निर्मुक्ता दोषदर्शिनः अर्थं धर्मं च कामं च हित्वा ते परमं ज्ञानमास्थाय तत्संक्षिप्या संक्षिप्य सुसंस्थिताः तेषां तु तमभिप्रायं ज्ञात्वा ब्रह्मादु कोपितः तानब्रवीततो ब्रह्मा निरुत्साहान् सुरानथ प्रजार्थमिक वै मया सृष्टास्थ नान्यथा प्रसूयध्वं यजध्वं चेत्युक्तवानस्मि वः पुरा यस्माद्वाक्यमनादृत्य मम वैराग्यमास्तिदाह जुगुप्समाना स्वं जन्म सन्ततिं नाभ्यनन्तदकर्मणां न कृतोऽभ्यासो ह्यमृतत्वाभिकाङ्क्षया तस्माद्यूयमिहा वृत्तिं सप्तकृत्वो ते सप्ता ब्रह्मणा जयास्तं वै क्षमास्माकं महादेव यदज्ञानात्मकं प्रभो प्रणतान्वैः सानुनयम् ब्रह्मा तान्ब्रवीत्पुनः लोकेऽप्यथानुभुञ्जीदक स्वातन्त्र्यमिहार्हति मया गतं तु सर्वं हि कथमच्छन्दतो मम प्रतिपत्स्यन्ति भूतानि शुभं वा यदि वोत्तरं लोके यदपि किञ्चिद्वै शं वा शं वा व्यवस्थितं बुद्ध्यात्मना मया व्याप्तं को मां लोकेऽधि वर्तयेद् भूतानामीहितं यच्च यच्चाप्येषां विचिन्तितम् तथोपचरितं यच्च तत्सर्वं विदितं मम मया बद्धमिदं सर्वं च जगस्तावरजङ्गमम् आशामयेन बन्धेन कष्टं चेत्तुमिहोत्सहेद यस्माद्वहदितृप्तो वै सर्वार्थमिह यदि कर्माण्यनारभ्य कामं छन्दाद्विमोक्षते एवं सम्भाष्य तान् देवान् जयानध्यात्मचेदसः अधवीक्ष्य पुनश्चाकध्रुवं दड्यान् प्रजापतिः यस्मान्मानभिसन्धाय संन्यासाधिकृदः तस्मात् स विपुलायतो व्यापारस्त्वधमत्कृतः पविता च सुखो दर्के दिव्यभावेन जायताम् आत्मच्छन्देन वो जन्म भविष्यति सुरोत्तमाः मन्वन्तरेषु संसिद्धाः सप्त स्वाविर्भविष्यथ वैवस्वदान्तेषु सुरास्तथास्वायम्भुवादिषु एवं च ब्रह्मणा तत्र श्लोको गीतः पुरातनः त्रयीविद्या ब्रह्ममयप्रसूतिश्राद्धन्तपो यज्ञमनुप्रधानं वेदानि नित्यैर्महसारजोभिर्भूत्वा विभुर्वसदेण्यप्रशस्तम् एवं श्लोकार्थमुक्त्वा तु जयान्देवानथा ब्रवीद वैवस्वदेन्तरेतिरे मत्समीपमिहैष्यथ ततो देवस्थिरोभूद ईश्वरोऽ्यकुतो प्रपन्नाधारणामाद्यां युक्त्वा योगबलान्विताम् ततस्ते न रुषा शब्दास्ते भवन्द्वादशा जिताः जया यदि समाख्याता कृता एवं विसन्निभाः तदस्वयं भुवे तस्मिन् सर्गेति देतु पुनस्ते तुषिता देव जादा स्वारोचिषेन्तरे उत्तम से मनोपुत्र सत्यां ज्ञा तद सत्यामृद मनो हरिण्याम तुषिधा जिरे द्वादशेव नामते नाम ते दवा यजस्तदाभवस्ते हर दें प्राप्ते चारिष्टवेंद विकुण्ठायां पुनस्ते वै वरिष्ठा जज्ञिरे सुराः वैकुण्ठा नाम दे देव पञ्चमस्यान्तरे मनोः तदस्ते वै पुनर्देवा वैकुण्ठा प्राप्य चाक्षुषं तदस्ते वै पुनः साध्याः उपस्थिते पुनः सर्गे मनोर्वैवस्वतस्यः अंशेन साध्यास्ते दित्यां मारीचात्पश्यपात् पुनः जज्ञिरे द्वादशादित्या वर्तमानेन्दरं सुराः यदा चैदे समुत्पन्नाश्चाक्षुषस्यान्धरे मनोः शप्तः स्वयंभुवः साध्या जिरे द्वादशामराः एवं शृणो धियो मर्त्यो जयस्तस्य भवेत्सदा जयानां श्रद्धया युक्तः प्रत्यध्यायं तु गच्छति ेृत सप्तवा जन्मल पीक्रता वोध्या किं भूय श्रोतमीछथ ब्रह्मांडे महापुराणे वायु मध्यमभागे मध्यम भगे तृतीय उपोदिव्याम चतुर्द्याय ओ